नारदपुराणं पूर्वार्थं अध्यायं 53. सनन्दन उवाच निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्राङ्गमुत्तमं तत्पञ्चविधमाख्यादं वैदिकं धादुरूपकं क्वचिदूर्णागमस्तत्र क्वचिद्वर्णविपर्ययः विकारक्वापि वर्णानां वर्णनाशक्वचिन्मतः तथा विकारनाशाभ्यां वर्णानां यत्र नारद धादोर्योगातिशयी च संयोगः परिकीर्तितः सिद्धेद्वर्णागमाद्धं सिंहो वर्णविपर्ययाद गूढोत्मा वर्णविकृतेर्वर्णनांशात् पृषोदरः भ्रमरादुषु शब्देषु ज्ञेयो योगो हि पञ्चमः बहुलं छन्दसित्युक्तमत्र वाच्यं पुनर्वसु नभस्वद्वृषणश्चैव परस्मैपदि चापि हि परं व्यवहिताश्चापि गदिसंज्ञास्तथा हि आ विभक्त्रीणां विपर्यासो यथा दधनाजुहोदिः अभ्युत्सादयामके दुर्ध्वनयेत् प्रमुखास्तथा निष्टक्याद्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा सुप्तिमुपग्रहलिङ्गनराणां कालहलूचुस्वरकर्तृयडां च व्यत्ययमिच्छति शास्त्रकृदेशांसोऽपि च सिध्यदि बाहुलकेन रात्रिविं बीजकदृश्चाविष्टौ वाजसनेयिनः कर्णेभिश्च यशोभाग्य इत्याद्याश्चक्षुरक्षरं देवासोधो सर्व देवतातित्वावत इत्यपि उभयाविनमाद्याश्च प्रलयाद्याश्च स्फृज्यं तथा अपस्पृद्धेधाम्नोऽव्यादायो अस्मान्मुखास्तथा सगद्भ्योस्तापदि हृव्योरजिष्ठं त्रिपञ्चकम् हिरण्ययेन नरं च परमे व्योमनित्यपि उर्वियास्वप्रया वारवध्वा ददुहवैवधी यजध्वै न मे मसि च स्ना गत्वा पजास्तभौ गौनाञ्चापरिह्र वृत्ताश्चातुरीर्ग्रसिताधिका पश्ये दधद्वृद्धा विप्रमीणां तीवीवृध मित्रयुश्च दुरस्ववाहत्वा सुधितमित्यपि दधर्त्याद्या स्वबद्धिश्च स सुवेति च द्विष्व च प्र यं च हरिवदे क्षर्णोग् सुपर्भितरः रभितरि नशताद्या इति ब्रूह्याद्यादे परस्याद्यौ श्रावयेत्यादिके प्लुतः दास्वां शस्वतवान्या पौत्रिभिष्टं च नृभिष्ठुदः अभीषुणृतवाहं न्यषीदन् नृम्णा अपि चतुर्विधाद् बाहुलकात् प्रवृतेरप्रवृत्तिदः विभाषयान्यथाभावात् सर्वं सिध्यञ्च वैदिकम् भूवाद्या धादवो ज्ञेया परस्मैपदिनस्मृताः ये धाद्या आत्मने भाषा उदात्ता षट्त्रिं षट्सङ्ख्यकाः अदाधयोष्ठत्रिं षञ्च परस्मैपदिनो मुने लोक्रपूर्वाद्विचत्वारिं षदुक्वाच्यात्मने पदे उदात्ते तरदु पञ्चाशत् सकाद्या परिकीर्तिताः पश्चाद्या अनुदात्तेद दा एकविंशतिरीरिताः गोपादयो समीरिताः दृणाधयोनुदात्ते दोदश प्रोक्ताः शाब्धिकः अनादयोऽप्युदात्ते दशसप्तविंशति धाधवः अमादय समुद्दिष्टाश्चदुसृंषद्भिकैः द्विसप्ततिमितामव्यमुखश्चोदात्तबन्धना स्वायिते धावुद्धादुस्तु एक एव प्रकीर्तितः क्षुद्धा दयोऽनुधाते दोद्विष पञ्चाशदुदाहृताः कुशीराद्या उदात्तदोष्ठाशीदीर्धाधवो मदाः द्युताद्या अनुदात्तेदो द्वाविंशतिरदो मदाः क्षितश्रयोदश फलादेष्वेनुदते दीरीदः तदोज्ज्वलदुधाते दो द्विपञ्च शन्मिधास्तथा स्वजिते द्राजृसम्भोक्तस्तनहे भ्राजृतश्रयः अनुदात्ते द अख्यादाद्युदात्ता इद स्म्याद् इदस्यमाद सोऽनुदातेदेकस्तु रमोऽप्यात्मनैपदी सदश्रय उदात्ते ध उजाद्वेदा उदात्त इद स्वरितेदः पञ्चत्रिंशदधिक्काद्याश्च ततः परं स्वरिते चिन्बृणाद्याश्चत्वारस्वरिते तदः दृढपरस्मैपदिनषट्चत्वारिंशदुदीरिताः अष्टादशस्मिद्यास्तु आमनेपदिनो मताः ततश्रयो नो स्मैपदी चात्मने भाषास्तु गोपात्रयः प्रभद्याब्दयनुदाते दो इञ्जिष्विद्धोत्तात्त इन्मदः परस्मैपदिनः पञ्चदशस्कम्ध्वादयस्तथा किद धातुरुदात्तेज दानसानो भयात्मकौ स्वरिते दः परस्मै पदिनो मदाः स्वरितेतस्त्रयश्चैतौ वदवची दव परिभाषिणौ भ्वाध्यायेदे षडधिकं सहस्रं धाधवो मदाः परस्मैपदि न प्रोक्ता वदाश्चापि हनेति च स्वरिते दो द्विषाद्यास्तु चत्वारो धातवो मदाः चक्षिङे कः समाख्यादो पदी इरा दयोनुदात्ते दो आत्मने आत्मनेपदिनौ प्रोक्तौ शूं शीं द्वौ शाब्दिकैर्मुने परस्मैपदिनः प्रोक्ता शुमुखा सप्त धाधवः स्वरिदे दुर्नु ज्ञाख्यादो धादुरेको मुनीश्वर क्रय उदिष्ट समाख्याद थानेमृते नारद शक अष्टादशरा प्रभृत यमृता इङ्गात्मनेपदी प्रोक्ता धादुर्नारदकेवलः विधादयस्तु चत्वारपरस्मैपदिनो मदाः पदिकस्ताथा परस्मै परस्मैपदिनश्चैव ते मयोक्तास्यमादयः ी धीं वें स्मृतौ धादु आत्मनेपदिनौ मुने प्रधादयश्रयश्चापि उदात्ते दः प्रकीर्तिताः चर्करीदं चह्नुं प्रोक्तोऽनुदात्तेन्मुनिसत्तमा त्रिसप्ततिसमाख्यादा धावो दादि गणे दादवो, दादवो वेद परस्पीनो स्वरी द्वै स्वरीतेख्याद उदत्ते धा प्रकृतिद मांग द्वा वनुदते तौ वितेन धाषु वाणीतिराद्यायृताशतथ पर नो मद्वतरी धादवो वादिके ग परस्मै पदिनः प्रोक्ता दिवाद्या पञ्चविंशतिः आत्मनेपदिनौ धातु शूं दूं द्वावपि नारद ओ दिदः पुं मुखा सप्त आत्मनेदपि नो मदाः आत्मनेपदिनो विप्र दीं मुखास् स्व कीर्ति प्रभृत वेदा परस्म पदीनो मद जनियादश आत्मनेदीनों मुनेद्या स्वरी तस्तो धाधवीर्ति एकादशपदाद्यास्तु ह्यात्मनेपदिनो मदाः राधो कर्मक एवात्र वृद्धौ स्वादिचुरादिके उदात्ते तस्तु दाद्यास्तु त्रयोदश समीरिताः परस्मैपदिनोष्टात्र रधाद्या परिकीर्तिताः समाध्याश्चाप्युदात्ते तशट्चत्वारिंशदुदीरिताः चत्वारि षट्शतं चापि दिवाधौ धाधवो मदाः स्वादयस्वरिते धाधवः परिकीर्तिताः सप्ताख्यादौ धुनोतिस्तु परस्मै परस्मैपदिनो मुने अष्टिकावनो धातेदौ धातु द्वौ परिकीर्तितौ परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश द्वात्रिंशब्दादवप्रोक्ता विप्रेन्द्रस्वादिके गणे स्वरिते दक्षणाख्यादास्तु दाद्यामुनिसप्तमा हृष्युदा जुषि पूर्वा आत्मनेपदिनोर्नवाः व्रक्षादय उदात्तेदप्रोक्तापञ्चाधिकं शतम् गुर्युदात्ते दिहोद्दिष्टो धादुरेको मुनीश्वर नू मुखाश्चैव चत्वारपरस्मैपदिनो मदाः कुङाख्यातोऽनुदात्ते च कुडाद्याः पूर्तिमागदाः प्रृङ् मृं चात्मने भाष्यौ पदे रिपेहे आत्मनेपदिनो धादू दृङ् दृङ् द्वौ चाप्युदाकृतौ प्रच्छादिषोड्शाख्यादाः परस्मैपदिनो मुने स्वरिते दशषट् ततश्च प्रोक्ता मिलमुखा मुने कृदी कृतिप्रभृतयश्चापि परस्मैपदिनत्रयः स्वरिदेदो धादवशतं स्वरिदेन्दा परस्मै, स्वरिदे परस्मै भाषितकृतिधीदो नु दादेतश्रयो धाधव ईरिदाः उदात्ते तच्छिशिशरुधाद्याः पञ्चविंशतिः स्वरिते तस्तनोःसप्तधाधवः मनु मनुवन्वात्मने भाष्यौ स्वरिते कृन्युदाकृतः तदो द्वौ कीर्तिदौ विप्रधादवो दशशाब्दिकैः क्याद्याः सप्तोभये परस्मै परस्मैपदिनः प्रोक्ताश्चत्वारो विमुनीश्वर द्वाविंशतिरुदा ते ध क्रुद्धाद्या धाधवो मदः पदी धाधो श्रद्धाद्याश्चैकविंशतिः परस्मै पदिनश्चाधस्वरिते ग्रह एव च क्रियादिकेषु कीर्तिता बुधैः चुराद्या धादवो ण्यन्ता षट्त्रित्रिंशदधिकशतम् चित्याद्यष्टादशाख्यादात्मनेपदिनो मुने चर्चाद्या आधृशी यास्तु प्यन्ता वा परिकीर्तिता सा अधं ता धादवश्चैव चत्वारिंशत् तथाष्टकम् पदाद्यस्तु दश प्रोक्ता धादवो ह्यात्मनेपदे सूत्राद्याष्टचाप्यत्र ण्यन्ता प्रोक्ता हेदुमत्यपि तत्दित चे हेदुम धाथे कर्तृकरण चिराध्याद अष्ट्राम शब्दर्बुद स्ध्या षोडशा आंता तस्यम अंतर्शन तथा वाकुकाद्रलौकिकी तथावाचिन नाम वैना येव मानं त्यमुद्भाव्यं धादूनामिह नारद सङ्क्षेपोऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च यीदृदं तैर्यौधि रुक्ष्णुषुं स्नुक्षुच्छीडीं स्रुभिः भृङ् वृञ्जभ्यां भृं वृञ्भ्यां च विनयिकाजोजन्तेषु निकता स्मृताः शुक्लपचुमुचार् वच्विचित्यघ्निर्भजः भञ्ज् भुज् भस्मत् यज्ज्युजुजज्ञे सृजः अदक्षुचित्तु दिनुदपद्यभिद्विद्यर्विनद शत्सदिष्विद्यतिस्कन्धिकृक्षुधि बुध्यधि बन्धिर्युधि रुधिराधि व्यशुद्धसाधि सिद्यधि मनाक्षि क्षुपितिश्तृप्यधिदृप्य्लुवूष स्वुष पीय भर भगम्यमोर कृषेर् दाम् देशे दृष्मेश्रे ऋष्यकृषिहि त्विषदुष्पृष्यपिश्य तजो ली वसाध्ये दे हि दोखो नाम क्रो धादवो प्लिविस्त धा। अता फल तेषु धाधविग्यागवयपराद्यादिग्देशोक्ता सेनेर्विंग अभी द्विज गण पठसूत्रपाठो साधु पाठस्त पाठोनुना चारण मिखोच्य शैदिकत लौकिकाचा नारद शब्दपरायण तस् शब्द, शब्द संग्रह लघुमार्गेण शब्दानां साधूनां संनिरूपणं प्रकृतिप्रत्ययाद्देशलोपागममुखैकृतं यत् मेधसमाख्यातं निरुक्तं किञ्चिदेव ते कार्ष्ण्येन वक्तो मानन्द्या कोऽपि शक्तो न नारद इति बृहन्दीयपुराणे पूर्वभागे पादे पदे लक्षण निरूपण नाम पंचाशत्तम ओं